महारीराण कदनमच्य शत्रुण्चाशं नयीष्य दिनाधन महाबाहु प्रेतराजपुर तथो महारथैर सहुशोरणे दिनक्षये महाबाहुर्मया भूय समेष्यति एकम् वंशकरम् पुत्रं वीरं वै जनयिष्यति प्रणष्टम् भारतम् वंशम् स भूयो धारयिष्यति एतत् सोमवचः श्रुत्वा तथा स्वितिदिवौकसः प्रत्यूचुःसहिताः सर्वे एवम् ते कथितम् जन्मपितुः पितुः पितु। अग्नेर्भागन्तु विद्धित्वं त्वम् धृष्टद्युम्नम् महारथम् शिखण्डिनमथो विद्धिराक्षसं। विद्धि राक्षसम् द्रौपदेयाश्च ये भरतर्षभ प्रतिविन्ध्यः सुतसोमः श्रुतकीर्तिस्तथा परः नाकुलिस्तु शूरो नाम यदुःश्रेष्ठो वसुदेव पिताभवत् अग्रमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वैतदा अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्षया अददात्कुन्ति भोजाय सतां दुहितरं तदा सा नियुक्तापितुर्गेः ब्राह्मणातिथिपूजने उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् निगूढनिश्चयम् धर्मेयम् तम् दुर्वाससंविदुः तमुग्रं शंसितात्मानम् सर्वयत्नैरतोषयत् तुष्टोऽभिचारसंयुक्तमाचचक्षेयथाविधि उवाच चैनाम् भगवान् प्रीतोऽस्मि सुभगे तव यञयम् देवम् त्वमेतेन मन्त्रेणावाहयिष्यसि तस्य तस्य प्रसादात्वं प्रसादात्वम् देविपुत्राञ्जनिष्यसि एवमुक्ता च सा बाला तदा कौतूहलान्विता कन्या सती देवमर्कमाजुहावयशस्विनी प्रकाशकर्ता भगवाँस्तस्याम् गर्भम् दधौ तदा अजीजनत्सुतं चास्याम् सर्वशस्त्रभृताम् वरम् सकुण्डलं सकवचं देवगर्भश्रियान्वितं दिवाकरसमं दीप्त्या चारु सर्वाङ्गभूषितं निगूहमानाजातं वै बन्धुपक्षभयात्तदा उत्ससर्जजले कुन्तीतं कुमारं यशस्विनं तमुत्सृष्टं जले गर्भं राधा महायशाः राधाया कलयामसुत्र सोधि र